ॐ मुद्राय नमः ॐ मलयाय नमः ॐ मलयान्वितायै नमः ॐ मेधायै नमः ॐ मरकथश्यामायै नमः ॐ मगध्यै नमः ॐ मेनकात्मजायै नमः ॐ महामार्यै नमः ॐ महावीराय नमः ॐ महाश्यामायै नमः ॐ मनुस्तुतायै नमः ॐ मातृकायै नमः ॐ महिराभासायै नमः ॐ मुकुन्दपदविक्रमायै नमः ॐ मूलाधारस्थितायै नमः ॐ मुग्धायै नमः ॐ मणिपुरनिवासिन्यै नमः ॐ मृगाक्ष्यै नमः ॐ महिषारूढायै नमः ॐ महिषासुरमर्दिन्यै नमः ॐ योगासनायै नमः ॐ योगगम्यायै नमः ॐ योगायै नमः ॐ यौवनकाश्रयायै नमः ॐ यौवन्यै नमः ॐ युद्धमध्यस्थायै नमः ॐ यमुनायै नमः ॐ युगधारिण्यै नमः ॐ यक्षिण्यै नमः ॐ योगयुक्तायै नमः ॐ यक्षरायप्रसूतिन्यै नमः ॐ यात्राय नमः ॐ यानविधानज्ञायै नमः ॐ यदुवंशसमुद्भवायै नमः ॐ यकारादिहकारान्तायै नमः ॐ यायुष्यै नमः ॐ यज्ञरूपिण्यै नमः ॐ यामिन्यै नमः ॐ योगनिरतायै नमः ॐ यातुधानभयङ्कर्यै नमः ॐक्मिण्यै नमः ॐ रमण्यै नमः ॐ रामाय नमः ॐ रेवत्यै नमः ॐ रे रेणुकाय नमः ॐ रत्यै नमः ॐ रौद्रय नमः ॐ रौद्रप्रियाकाराय नमः ॐ राममाताय नमः ॐ रतिप्रियायै नमः ॐ रोहिण्यै नमः ॐ राजुद्याय नमः ॐ रे नमः ॐ रसाय नमः जीवलोचनायै नमः ॐ राकेश्यै नमः ॐसम्पन्नाय नमः ॐ रत्नसिंहासनस्थिताय नमः ॐ रक्तमाल्याम्बरधराय नमः ॐ रक्तगन्धानुलेपनायै नमः ॐ राजहंससससमारूढायै नमः ॐ रम्भाय नमः ॐ रक्तवलिप्रियायै नमः ॐ रमणीययुगाधाराय नमः ॐ राजताखिलभूतलायै नमः ॐद्राण्यै नमः ॐमपरिधानाय नमः ॐ रथिन्यै नमः ॐ रत्नमालिकायै नमः ॐ रोगेश्यै नमः ॐ रोगशमन्यै नमः ॐ राविन्यै नमः ॐ रोमहर्षिण्यै नमः ॐ रामचन्द्रपदाक्रान्ताय नमः ॐ रावणच्छेदकारिण्यै नमः ॐ रत्नवस्त्रपरिच्छिन्ना छिन्वाय नमः ॐ रतस्थाय नमः ॐक्मभूषणाय नमः ॐ लज्जादिदेवतायै नमः ॐ लोलाय नमः ॐ ललितायै नमः ॐ लिधारिण्यै नमः ॐ लक्ष्म्यै नमः ॐ लोलाय नमः ॐ लोप्तविषायै नमः ॐ लोकिन्यै नमः ॐ लोकविश्रुतायै नमः ॐ लज्जायै नमः ॐ लम्बोदर्यै नमः ॐ लनाय नमः ॐ लोकधारिण्यै नमः ॐ वरदायै नमः ॐ वन्दिताय नमः ॐ वन्द्याय नमः ॐ वनिताय नमः ॐ विद्याय नमः ॐ वैष्णव्यै नमः ॐ विमलाकृत्यै नमः ॐ वाराह्यै नमः ॐ विरजायै नमः